म् विश्वम् शशिभन्नम् च तजम् प्रसन्नवदनध्याये सर्वविघ्नापशान्तये शिरसवत्राद्य पारिषब्द्यात्पहर्षतम् विघ्नम् निघ्नन्ति सततम् विश्वश्रयणम् समाश्रये धासम् वसिष्ठमत्तानम् शक्यः स्थौत्रमकल्मठम् त्मसम्बन्धे सुखदाचन्दपोनिधिम् हासाय विश्वभूताय व्यासभूताय विश्वजे नमो वये ब्रह्मविषये वासिष्ठाय नमो नमः प्रणोदेशरस्पदेवाय परुभाजिदेव ऐत्तदीयसंहितान्तर्गत कृष्णयजुर्वेदसंहिता प्रथमकाण्डप्रारम्भः ॐ श्रीगुरुभ्यो नमः गणानाम् वा गणपतिम् भवामहे कविम् कलीणाम्वत्समम् यक्षदायम् ब्रह्मणाम् ब्रह्मणः स्थलानशृङ्गम् नो गणपतये नमः जय जयप्रभायवत्सव भायवत्स जय गो वत्सविता प्रार्थय दुश्रेक्षमाय कर्ममध्वयावयव भागवोर्जस्वभेत्रयस्व प्रजापेनवाहयक्ष्मा मा वस्य नीशतमाभृतगुङ्गा भृजेत प्रिवावृणकृद्रुमा अत्यङ्गातौत्या यजमानस्य पशोङ् यज्ञस्य भोजधिप्रत्यक्षतुं रक्षप्रत्यक्षमनाकृता स्वच्छादितच्छात्रा वयः पुरप्रा देवे ज्योतिष्ठमिष बहिरासदवानां वयसूतमधिमधिमा स्वान्वन्मा दिव्यध्यातमा ेव वरिष्ठादि सुन्द्राण्ये सन्नहम्भोजे ग्रन्थिङ्गक्षाभृते स्थालिङ्गस्य त्वा बाहुभ्यामुद्यक्ष गृहस्तरे न्दैव्याय तेद्याये माधरिष्वर्म विद्यो रसि पृथिव्यति विश्वधायाधिपदमेणां पवित्रमभिज्ञायस्ता विश्वाविश्वा विश्वव्यधा विश्वजर्मातम् द्रक्षधमृताो मे मत्वाय ते हव्यम् रक्षत्वा कर्मेचयं देशा प्रत्यक्तंलक्षप्रत्यक्तायोविभो प्रभोन्दोर्वदन्यो आत्मान् भोर्वम्भोर्दयम् वयं िदमम् पक्षितमञ्जुक्षगमम् मञ्झिकमं देवभूतमकृतमज हृद्धानमात्त्वा नेत्रक्षत्वा चक्षुधात्रेक्षे माधैर्मात्वाभित्वार विपक्षेभ्याम् यज्ञे सोमानामिदमात्ये स्वाराच्छेदम्भवेष्वारञ्जो हृद्रिगुहन्ताम् दुर्याद्या वापृथ्यो रुधम् लयक्रमम् व्यक्षरित्या स्वपक्षेवादयाम् यज्ञे हव्यगुम् रक्षत्वा ये ये ो हस्त पुना कृच्छिद्रेण परित्रेण भो यत्रिभि देवीरग्रे गुवागे भुवोग्रहिण यज्ञराग्रे यज्ञपविन्धत्त्रो गुणेन वृद्धतोर्य योज इन्द्रमरणे संवृद्धतोर्ये प्रक्षिता सा जये भोजिष्ठन्द्रोष्ठे रोमा देव्याय कर्मणे देव यज्ञाया अवधो चतुं रक्षोऽवधूता त्वजभिप्रजित्वा तु जिभे त्वधिशवनमधिमान सत्यं प्रवित्वा दिध्यात्वग्ने स्वज्ञेस्तनोरमाशो विसर्जनं देव विषये गृह्णान्यमानस्पत्यसहितं देवेभ्य हव्यकं सुषं प्रतिमरकवधम् वे पराभों नक्षपराभूताराजयो रक्षताम् भागो रक्तन्यवा यत्प्रतिग्रन्थामो अवधोरकं नृपावभोदाित्या स्वगति प्रसित्वा पृथिवीरे धनिरति प्रसित्वादिख्या त्वे त्वधिगणाधिपर्धत्या प्रदित्वाधिवत्कं भजर्वे त्वभिगणाधिपा प्रयित्वाजर्मे स्वाभवेभ्याम् घोष्ठ भ्यामधिवपाणि धान्यमतिभिदेवान् प्राणाय त्वापाणाय त्वाभ्यानायत्वा धीर्धामनुप्रतिशिमायुषेधा दे देवो वक्तहिता हिरण्यपाणिप्रतिगृह्णातु ब्रह्म यच्छाता कल्यादकम् देहादेभयगं वैधुम् रक्षाज्याहरादयांहायत्रगुंह प्रजान्तम् हृतजाता नैयजमानायपनियोः धरुणमश्चन्द्रन्द्रगं हत्यानन्दगुंहागुम् हृतजातानश्चेजमानायपयोः धर्ममस् शिलिरान्द्रिगम् हरक्षर्दृगम् हस्तान्द्रियम् हतजाता नत्यै यजमानायवर्यो रघर्मा शिलिशोदृगम् हयोरेन्द्रियम् हस्तजान्द्रिगम् हसजाता नत्यै यजमानायवर्यो हस्थत्रजा मस्तैरयमत्कैकजाता नत्यैर्यजमाना यवर्यो हदृगो नाम चामधार्यध्वर्यानि धर्म्यकपायान्य चन्द्रम् च वेधतः ञभ्रत इन्द्रभाजो निरुपुञ्छता ो अध्यरग्मदमोषधयोसे नेवर्चयते धर्मसुमधे अग्मसुमते भित्सृज्यध्वपरि प्रजातास्पदमभ्यप्रच्छध्वजनयच्छे पादङ्गोमाभ्यां महक्षिरा धर्मादि विश्वायप्रथप्रे निज्ञपरि प्रथतान्तरि लक्ष्मो नयितारादयो देवे अधिनाज्ञष्ठे मनुब्रह्मादिभागज्ञे हव्यवङ्गक्षत्रभङ्ग्रह्मणा वृक्षत्रैकदाय स्वाहा धिराय स्वाहा त्रिदाय स्वाहा न्द्रस्य बाहुलविदक्षिणः सह प्रभृष्ट्यः सतते नायुपतिमते पृथिवीते वय संयोग्यापरं चे वृजम् गच्छोत्थानम् वर्षतु प्रियं च वयं ज्यत्तमतोमा भौरपः सौरव प्रथिव्यै देव वैदन्ये जलं गच्छोक्तानं वर्षतु चे प्रियं च वयं जष्पत्तमतोमा भौरपः सौरवृथिल्या ेन पाधेञ्च वयं च परिग्रन्थन्तु गायत्रेण छन्दसा रुक्षा परिग्रन्थन्तु त्रे न चन्दसा दित्यः स्वापरि ग्रन्थन्तु जागते न छन्दसा देवस्ते कर्म गण्डन् त्रिवेश वितमस्कृतरामस्कृतशे रतिधा अधि चाधिमक्त्रे चाधिपुरा क्रूरस्य पितृपा दाय पृथिवेञ्जेरसा दुर्गा मेलयम् चन्द्रमभिस्पथाभित्ताम् जेराभो अनुदृष्टयजन्ते प्रत्यक्षमम् रक्ष प्रत्ये विक्षेल ते च पाणिपाक्षम् मायम् रक्षम् वाजिनम् त्वारपत्रहकम् सम्माधिम् पालम् चक्षुष्वार्थम् प्रजानियाम् मायम् लक्षम् वाजिने पत्रसाहीकुम् सम्मादौ मनसम् प्रजातुम् केयक्रजतुपे अग्ने सामं प्रवाशि के सुतमे समे समायदातम् प्रजयापरञ्ज्ञेव गुणः सम्पत् नेवत्याहम् गच्छ समात्मा तनुवामना धीनाम् पयोश्चोधीनाकुंलसप्तस्य चे क्षीयमानस्य निर्भवानिमहीनाम् पयोश्चोधीनाकुं रतो स्येन चुषादे क्षेतुप्रजात्वा जते चोधिषेजो नुत्वे यज्ञस्य च जोमानिने यज्ञे जिवादिषुभो देवानाम् धाम्ले धाम् ज्योतिरभिते ज्योतिदेवो हस्ततो पुना नेण परित्रेण पाप्तो यस्तरक्षभिः शुक्रन्ता शुक्रायां धाम् ने धाम् ने देव ज्योजुषैलुषे गृह्णानि ज्योतिष्त्वा ज्योतिषर्चित्वा चिभिधाम् ने धाम् ने देवे ज्योयजुषैलुषे गृह्णानि कृष्णात्यागरे स्वाग्नये स्वाहाधिवर्हि स्वात्मार्हिरधिपादित्वान्तरक्षायत्वा्यै स्वाथापितभ्यो च भोर्जा पृथिवीं गच्छा वार्मिष्टं जयध्य गन्धर्वाधिविश्वासौ विश्वस्मादेशमानश्च परिशिरी जलेन्द्रस्य बाहुरविदक्षिणो यजमाणस्य परिशीर्डयीतो मित्रा वरुणौ स्वारतः परिसत्ता ध्रुवेण जन्म इजमाणस्य परिशीर्डये पुरस्यामित्यग् यन्त्रं शुद्राणामा त्याः पुंसेदुः ममभ्युपादिकृता ते नाम्ना प्रियनाम्ना प्रियके रैतासलम् स्वकृतश्च लोके पाहि स्वा पाहि पाहि विज्ञम् पाहि विज्ञपतिम् पाहि वा यज्ञनियम् बुवनमतिर्प्रशस्ता ज्ञेयस्त इदम् नमः यज्ञत्वायदि देव यज्ञाया उपभृते हि देवत्वायदिदेव यज्ञाया अग्नाविष्णो मा भावमत्रमिषं विदिहान्त्रा लोकं य लोककृतो गुणसंग्रोक्ता इन्द्रो अग्रहाग्येर्याविषमालभ्योऽष्टमकृतो यज्ञो यज्ञप ृ पाठिशरी चलते निग्राभं ब्रह्म देवान्न असा भदत्रादिन्द्राग्रेवे विरोचेनान्यता असौभ्यस्ताभ्यस्त्वादित्येभ्यस्वार्थम् भियम् सुवयः प्रजाय्यानिर्मायम् निःखमात्यायम् तावा वोषधय मरुताम् कुशलय खलिमङ्गच्छततो नौ वृष्टिमेलया आयस्ताये पारित अज्ञे जैसा हीज्य अर्दीय न्त एतव शम्भरादपचेतया तैर्यं पाहि माहित्यै पाहिदुरिच्यै पाहिदुरध्वन्यै पाहिदुष्करि दादपिषङ्गातम् जित्वा राजविसमासस्फल हिमन्नो देवदेवेषु यज्ञ स्वाहा भाषि स्वाहा भाषेधा इन्द्राभ्युवद्भ्या उभारासदस्यादयध्यै उभातारा विशाकुण्णामुभाराजस्य सादयेभुवा अश्वभुञ्जो विशावत्तरा वा विशात् अथ पोमस्य प्रयते युवभ्यामिन्द्रामञ्जनयाभिनव्यम् निन्दाम् पुनो नाशपत् साकमेकेन कर्मणा सुजन्मत्वमन्नवजासमध्येन्द्राज्ञाः उभाधिवागुम् सुरवाचो भवे निताभाजगम् सद्य उजते ज्येष्ठाः स्वयमुत्वाजसागरे श्रिये कोषम् वयज्महे रथप्रथप्रतिपदिम्बत्या कामेण कृत अध्यानचक्रम् शोधचन्द्राग्राधियम् धियगम् विप्रकोषा क्षेत्रस्य भजिना वयवम् हितेनैवयामहि रामस्वम् कोषहि ृतश्च आत्मनयो मृयन्तु प्रसादाय अस्मान् इश्वानि देव मयिनानि विद्वान् योऽध्यस्मद्यभुतानवे न भूयिष्ठान्ते नवत्यम् आदेवा नाम विशंसामजन्मयच्छक्रवा मतदमप्रबोढम् अज्ञवान्त्रयधास्य अब्बलान्त्र कल्पयाति भावक्षयत्र अग्ने त्वम्पाद्या अस्मा भवति दुर्गाय विस्वाश्चे बहुदानमुर्गायुनयाग्ने अपि देवामध्ये स्वार संयज्ञेश्वेभ्यः शब्दो वयम् प्रिनामभ्रजाय विदृता देहा अपि दुष्करा अद्य कब्दसमापणानि विद्वानरे देवागम् प्रतिभिः कल्पयामि जीवते देवाभिक्त्वायवश्चेच्छायत्वेन यत्पेन गम्भिश्चो रेता हि क्लवदे स्वत्युत्तरीयापोऽस्मान् मातरः सुन्दन्त धृतेन गौभ्यवर्पुणन्तरिष्टभक्पत्रमहन्त विक्रौदाश्च जिलाभूतये विशोभस्य धनोरसितमं नेता हिमहीनां धावच्चो मयि भे हि वृत्तस्य धने निकाधिलक्षिलक्षन्मेपाधिपदित्वा पुनातु भात्पदित्वा पुनातु देवस्त्वा पविता पुनात् प्रच्छित्रेण पवित्रे नवसौ यश्च पवित्रय पवित्रेणैकं पुने स्थगे यमागो देवादये महे तस्य धर्वाद्भरे यद्वो देवासाहुरे महेन्द्राग्ने ज्यावापृथिवेहापोषधेयकम् देक्षाणामधिपतिरथेहमासन्तम् पाढे आघोव जय श्री देय श्री स्वाहा नय हा इव मते जय स्वाहा निखाले पपज्ञय स्वाहा रस्पते भोज्ञय स्वाहा भगवेद्य निष्टसं प्रभाय वा दुजय गुरुं तय कं ब्रह्मस्व जनो अविषावसा भुषा निखा देवचे रमत्तो वे नक्षं विष्णवे णित पुष्यो हैवा पाधमाश्च यद्ध्यो दृशिमान्धिरं यक्षमाणश्चं वरुणगुंशिजयाधिविश्वासुरिपातले मधुशर्माणवधिनामगुं हेमभोग्रस्याङ्गिरत्योर्णं वदावोद्रम्ये यच्छ पाहि मा माहि गुंगेन र्माधिकर्म निजमानस्य कर्म मे यक्ष नक्षत्राणाम् मातिकाशाहेन्द्रस्य योगिरपि मामाधिगम्भे पृश्येत्रादित्यागेतुक्तौषधेभ्रष्टोपस्थादेवो वनस्परिभूक्यो जगत्वाहाक्यम् मनसा स्वाहा ध्यावादिवेध्यामोरोरञ्जयक्षा स्वाहा ीं श्रियं वरामहे सुमृगे कामविष्टय भक्तोमाहतगुं सुपादानो असत्वजे मनो इदः सुरक्षा रक्षति कारथेनो ध्यानमश्चे त्वम् सुजाति भयुम् समन्दिरे महे गोपायनत्वत्तये प्रबुधेन पुनर्दः समज्ञे प्रथमासि देवामश्चेष्टेष्मेज्ञः भिमानावृत्तम् गोहा सन्न्यासो मोदासदा देवस्सरितावसोदा बालः ते यत्सो वासो य भरवापनम् भोगत्या विनाभिमा हवायुधा चन्द्रमधिम भोगाय भगवत्रमधिम भोगाय भोत्रा दिम भोगाय भजो धिम भोगाय भवतागो धिम भोगाय बलघेषो दिव भावनाय पर य पाथे रापो अपान्नपाद्य भो हरिष्यविन्द्रिनान्मजिं समस्तं भो मां सम्पृथिव्या अनुजेशं भद्रा दविष्टेहक्त्रे हृदृक्पदे अस्पेमभ्यमदा न्तयन्तो राजत्वेन समितामदेमा यन्ते शुक्रमोहितम् रक्षत्र जातम् भवभ्याजम् यक्षजोसि धृतामनसायुश्चाविष्टदेतस्याजो यन्त्रमधि यत्साः शुक्रमस्यमधि वैश्वदेवगुभवितो यस्य चक्षुरानुभमज्ञे रक्षणकलीनिकाषमानो विपत्सिताभि मनाधिकेदभिदक्षिणादि यज्ञनादे क्षत्रिया श्रेरस्तु भगतश्रे चेतानस्तुत्रागेभुप्रे चेतम्भरमित्रत्वाोषाध्वनः पलान्द्रायाध्यक्षाया न स्वा माताहन्यतायभ्राता जगद्यानुसखातयो कादेवनस्येहेन्द्राय समसं रुद्रस्वा न मित्रश्चितोप चा पुनरे a uh -huh. त्याभिन्दाधिगृहीत्वा स्वामोलाया पदे स्वाहा परिलिखितं रक्षेवाभिगृन्दाविषो च वयं न गीवा अभिवृन्दां नृत्य केलायत्व केलायप्सन्दे विधेव्यौर्वश्याप्यत्वश्चिमीते खठे काले नाम् विजय तपसन्दशिवाहगन्धाय कोषेण वियोषन् गन्धस्यं सवितारमोन्या कविकृत्यामेतभक्दकृपा प्रजाभ्यत्वाद्धाणायत्वाद्ध्यानायत्वात् प्रजाप्तमनुप्राणे प्रजाप्त्वामनुक्षाणन्तो ीणान्योद्यम्पन्तम् देव्याम् शुक्रन्द्रे शुक्रेण क्रीणामि चन्द्रञ्चन्द्रेणामुदममुण संयत्रैव चन्द्रायस्तनो चापदेश्यन्धुवान्यत्रे देवम् धर्मयि देवा निष्क्रियन्तामस्ते ी नमो मेत्रो नये विपुलेन्द्रभायिन्द्रस्योज दक्षिणमुषन् दुषन्तज्ञो न्योनग्रावध्यायाध्वारे बम्भारे हस्त सुभस्तकृ स्वामत्रयक्षुतायुषा स्वायुषो दोषभेधा मनुषा तु न्तरिक्षमृत्यरित्यास्तदामेतास्तभ्रात्यारिक्षमोकवृमानम् पृथिव्याभोनाय सम्भ्रा विश्वेत्राय वरुणस्य व्रताय वरे भव्यन्तरिक्षन्तग्निवितो ददं देवम् धूरसाः वनश्रू अपि नौ वरुणक्षत्कम्भनमति वरुणस्य कम्भर्चनवति प्रत्यस्त्व वरुणस्य पाशः भुवत्त्व जय विश्वा जयमादि मात्रा परिमरेऽपि सन्मात्रा परिवन्सिनापि सन्मात्रामृताघाय गोमागम् सर्वा विश्वामसुराध्येन सद्यकृतमानश्च स्वक्यविपन्थामलक्षिकामनेह सञ्जयन विश्वामतृण्य इन्ददेव ेवजाताय केतवेलः पुत्रायशुंसवरुणस्यस्तम् भरवधिवरुणस्यष्टम् भरद्जनमस्य वरुणस्य पासः धिक्षमधिरुष्णवे त्वाष्णे स्वाधिष्ठेनाधिक्षमधिरुष्णवे स्वाज्ञ स्वानाय त्वा जना गृणमिच्छ स्वाक्षेणाय त्वा मधुरयमिच्छा देशामाणि हविषा निजन्तिता चे विश्वापरिभो देवानागं सख्यान्ना देवानामपदस्य सत्यापदयेत् स्वागन्हा विपरिपदयेत्त्वा गन्हामिष नो मे त्वा गन्हाक्वराय त्वा गृह्णाभिष खण्डाधिष्ठाय त्वा गृह्णाभिष्टम् देवानाभोजमभिषत्तिपान devat engamana banih khangik khadaman yata vandahastavasparihanyasaghatyavaneswaram suride maham पुंसपुंसत्ययदेव सोमाप्त्यायता इन्द्रायै कथनमिदा सुभ्यमिन्द्रत्यायतामाप्तमिन्द्रायत्यायताख्याय कन्यामेधया भक्तिजय देव सोम सुत्यामधीय स्ताय प्रे देभयाय तव च मायभ्यो नो हिरे नृपदे त्वं वता ोर्यंसामयि सहनो ग्रतव गतिना ग्रताग्नेयानोक्तया पाहितस्या स्वाहायाते अग्ने याशया रजा हराशया धनोर्वेष्ठाग्रम्ब च अपावथेन्द्रेशम्ब च अपावथि कृत्वा a चित्राय देवे विय देवेत्यवतान्मानाभितमवतान्नाव्यं हि अज्ञेऽङ्गिरोस्यां पृथिव्यामस्यायुधानां मे हृदेन धृष्टन्नाम यज्ञयन्ते न स्वाधे ज्ञे अङ्गिरोजो द्वितीयस्यां तृतीयस्यां पृथिव्यामस्यायुधानां मे हियतेन धृष्टन्नाम् ये कि यम ते न स्थाद देह गुहे दिगिते न च प्रकलप् वादे ये जह पदाम ध्रुवादि देवे श्वसं भत्व देवे अजश्म भवतेन्द्र घोड़प् लावद युरक्ता पाद वरादना दक्षिणतत्वादुप्रजेतास्त्वारुत्रये पश्चात्पाद विश्वब्रह्मादित्येरुप्रधनत्वादधिगुम्भेन दिनवर्णगाय स्वाहा जिगुम्भेन जिमुजा वने स्वाहा जिगुम्भेन दिनायत्वमहे स्वाहा तिगुम्भेरस्यादित्यम स्वाहाभेरस्यामहदेवान् देवयते यजमानाय स्वाहा भूते जस्वा विश्वायुत ृगम् हृदक्षितृगम् भाग्ये भक्ताम् च जैभिलोत्तस्य विभक्षितः शिवात्रादधे मयिनाविदेव परिष्पुतिः सुधाग्रे वधुरम् मार्वतरे वस्तुतो वेले वेलो जायताम् कर्म जायगुम् सर्वे लचितामयो बभूनामसी स्वयं व्यक्लिचक्रमे त्रेधानिषे वयम् प्रमोढाक्षपागुम् सुलजितापति भूतगुम् भूयपतिः मनदे सत्ये यत्रीमभिः कल्पयन्ति ओन्द्रम् यज्ञम् दय ब्रह्मादेधाम् प्रश्नम् पृथिव्या विनो वा विष्टबुधवा पृथिव्या महोवाविष्टबुतवान्तरिक्षाद्ध पुनप्तमभयपदक्षिणादव्या कम् देव्यायत्र वायम् यः पार्थिवायमिवमेलयागुम् श्रियाक्रभायदुत्तरगुम् तदर्थम् विचक्रपालत्रे सोबाया कृष्णमजिकृष्णा पृष्ठमजिकृष्णात्रे स्वोरजिकृष्णा द्रुव हि वैष्णव हि कृष्णवे स्वा न्द्रौ नार्घ्यरक्षतमिष्ठैः जिश्वगुण् त्यास्राम् ब्रह्मणे दातुमेव अभिद्यो च agrahyato varata sarayya paricchena vidana utthai sikrena prasaya de rage kada prabha vinasa prasthite archanahe lokam garjalak sampeha vachaka nirangge dosha sabha vahante na astha chakraih haranyam june यत्त्वा भोयादयेत् सत्तमं बोधा वत्करते दिवाकं समनध्योरे तेन सत्त्वा भूमः उपरे वाभिद्युन्ना तस्य आरं शोधनानां एतत् सत्सक्तज्ञानाग्ना आज्ञा वयादि वसुभागहेन सत्यततां भवति सत्सघायस्थाहित्यं रज्जिनोदरे महारजाय बन्धुतावचन्नायतमूलाः हस्वप्रयः करणय सुषे वासो विना हस्त्रमिष्ठाः तध्येयम् चेतमनस्तान्त हे पायवो नाम जेयन्ते अज्ञे दश अन्धम् सहितायन् विश्वे राजित्वम् दयिवो नामसन्न्यया पुनश्च प्रयाण अयाशे अग्नेय रक्षतमात्रम् वाजिनमाधिकर्मित्रम् प्रतिष्ठमुपयाधितग्म् विजयाद रमावा जय केरा विस्वानि च जय महेश्वरा पारिबे यत्माला स्कंधे गृहासि दिव्य श्रृंगे रक्ष दे विनेके उदस्मनागो धीरं तज्ञे तिग्नायुध रक्ष दे हम दवाहु अजय सत्य परदन दिभावानवरन्ते वले माघो अदेहि क्षत्रालप्रहरे श्रीणा भावभ्याम् ओष्टमहताभ्या महरे य लोकस्य कृषभोजको यमया राजे कृ य स्वारिकं भक्तं फलाय त्वा क्षन्त्रं छायाफलित्वा भव ृद्धायनवध्यायुक्ता भवन्तयुक्तयेन्द्रस्य वधेन्द्रस्य भुरमस्तेन्द्रमदेन्द्राय स्मा वियो ेन महान्तम्पाभियन्नमाना येनकरायत्रे न्यः स्वराश्यधिमालिहा विश्वारान्नाष्टाना रक्षण बलगन प्रक्षाङ्गे नवान् रक्षमन मनयामि नो जय पञ्चलयान बलगमन पत्रणाङ्गे नलां चक्षण बलगमन विश्वागे नवान् चक्षण बलगमन सोहणौ वनगहनौ पर्योरामिले नवेण सोहणौ वनगहनौ परित्रिणामिले नवेण सोहनौ वलगहनो वरे नवे भिल्या मातृजीनिन्द्राजवाचम्बा ्राटिव <Sessantise> संवृच्छोतिरवि <Sessantise> <Sessantise> ौरी जै भ्याद्वयभ्या नृदेभ्यभुरयन्ता शिवरोषु स्वाहादृषा नो हस्तुराज्यक्रमे दस्वाहायम् न अज्ञणाद्यम् वृषः पुर एभिन्दन् शयपुं शत्रो जय सुकृ हृदम् हृदयो न अपि भक्तप्रयज्ञपयुङ्गिरा मोदिकादिकाधिवानामेतस्य योनिमासमजित्यास्वक्षजित्यामस्त्वं लक्षम् मा वो नभदेवगुंसामदेवो देवानुपाघाजमहं मनुष्यो मनुष्यान् अहप्रजगागरायत्वेन नमो देवयाध्यस्तमहन्यर्वरुणस्य पाधास्तुभिरिक्ष्य गङ्ग्वानरञ्जज्ञे प्रतयत्वम् व्रतानाम् व्रतपजय मम तनोत्रै यथो हियगं तामयिया तव तनोर्मै यथो जयथा यथन्नो प्रतपदे त्यन्यानगानान्यानुपागामर्वापरे नविदम् परावरे सन्तायुजैवैर्मेव यज्ञायै देवस्तामत्रा भक्तो भक्तिपथि देवैनगुंशिगुङ्खेभ्यमध्ये नमालेखे अन्तरिक्षं मध्ये नमा हिगुं के कृसुर्गादम्भवनस्पते सदवसो विलोषः प्रमलशा विभय यज्ञ स्वसिदस्य जानप्रविनाय स्वाञ्जलिक्षायत्वा हिरेन्द्रो यमयाजेष्कृनायुंसदनमधित्वा वैशोद्रेका नृणां परस्परिता देवस्वासरितामध्वानक्षुपदिफलाभ्यस्तौ रचेभ्यमुद्यवग्युत्तनान्द्रैक्षं गृणेन करेण यत्र भूरिशृङ्गायातः कर्त्रा पदुर्गायत्र विष्णा परमम् पदमवभाविभोजये श्रद्धा कर्माणि पक्षानि तत्पज इन्द्रस्य यज्ञस्तः तद्य परमम् पदमिं सदा पश्यन्दिभूरयः श्रिमेवल सुरासनम् ब्रह्मवनिम्क्षत्रवणिकम् सुप्रजालनिकम् रायस्त्वलवलिम् पर्यो निम्भजृम्भाक्षत्रञ्जकम् भस्त्रकान्द्रबुम्भरायस्त्वकञ्जकम् हतजपरियम् राजस्त्वमाणम् मनुष्यापरभूभानि ुपदेवान् देवे अर्पिषक्ता गुरुगन्धान् देवन्धरेव जैत्रम गुर्वस्यत्यागरधिकुरवाध्य त्रिगन्धानञ्चम्बाय प्रजायश्वरप्रजायश्व भव ञ्जिगम् जष्टम् मा यक्षपजातवेदतो जिवो भवतमध्यमः अज्ञाग्यश्च यत्सविः कर्गेणाम् पुत्र अभिराजयेषः स्वाभागस्य ब्रह्मराजेषु जिमदेवानामपि कलाकर्भाेयम् आदरविदक्षत्राजय महेत्ता जयनारभेधामाकृतानभ्यस्त्रोध्यप्राभ्यतां केरभिस्ताण्ठित्रयुं हव्यमापे लैलस्तरैलुं सन्तरे प्राण वायुमागच्छतां संयिलत्रे लादि यज्ञपतिराभिजय नार्तौ वसुन्द्राये साधुं रेण यज्ञपतिं अन्तरिक्षेणाश्चनाय च नमश्चे रामर्हे यतिनिज्ञे निज्ञमदिनसादानामनुमस्तयत्वेन शुद्ध्रायव शुद्ध्रायूजन् देवागुण्ठो जगुं शुद्ध्रामृता परिवेक्षरो भूयात्मा त्यायदाम् ब्रानकाप्यायधान् चक्षुकात्याय माश्रन्दाप्यायधान् जाय प्राणां शुद्धामया चक्षुर्या स्वयच्छोरञ्जराप्यायदान्तय जै न सुन्द्रदान्नाभिकाप्यायदान् वायुस्थाप्याय रागुं शुद्धार्थयत्रा समर् ध्यक्तमोदधेऽध्यत्रम् पृथिव्यै नमः ध्यामोदक्षेत्रायस्तैरम् देलक्षणम् भावो भीतमहङ्गत्र भवन्तमोहरायञ्च वयम् दृष्ट इदमे नम समन्तमो नेत्रा ज्यावाकृषेत्रोङ्गालक्षन्माराय सुवीर पुरन्दरे क्रमन् विवालो यत्तो का ्रामनसं प्रामेण प्राणं लेवं धृतवक्त्राण अङ्गे अङ्गे अङ्गेभ्यैन्द्र अङ्गे अङ्गे विवस्तोजपायक्षलक्ष्माजयभक्त्रायं नयो हत्वा मा श्रे ध श्रवणन्दानस्य त्वाध्यक्षे कोक्षाद्योदेवनस्य पदवसाम् च हरितवाहा स्वान्तो विघ्रः अमुद्रङ्गच्छत्राः नैवगन्धविदारङ्गक्षत्राः रात्रयक्षत्राः विक्रावरलोगच्छत्राः सोमङ्गक्षत्राः यज्ञङ्गक्षत्राः छन्दागुण्डक्षत्राः ज्यावादवेगच्छत्राः नभो यज्ञङ्गक्ष्यं वेगस्वारङ्गक्षत्राः चेदभ्योमनाम्यः हरिप् मातुम् न्न पुण्ये सुन्द्राज्ञवा भागधेयेष्ठमित्रा वर्णयवा भारेष्ठान् दवानाम् भागधेयेष्ठै जागृता स्वाहितुं हिम् प्रजास्त्वमुलोहं प्रजास्त्वमुतामलोहम् च गृणिशाहवन्दे सन्दन्तात्मभि ेभ्यो गे मत्राभक्तशुक्लंसप्लेभ्योदानाम् भागच्छत्त्वारक्षपाताम् मध्यवं समुद्रवक्षिच्यामुन्नये जण्यystमत्यमाद जदेल ढ़ा देल जुनाद जएंदाश्तरदिर ज़ा ethn जद्यू अधर अबो। जद्यू मार्ड़ं भिक्षकी smells को्मादेरोने-्यारिदंग the içerन सक्षक्षडर अभड़ं भड़त्मना आवो राझनओ रकषद्रू भोगार्दंग भुके अज्ञम् पुरातनयच्छाभ्यो पुनो यत्र मातस्वभालोकने युवानतादृष्टेनामुनमध्यविद्धः जन्मो ह्ययज्ञश्च जित्त्वारिता मरुक्षा भद्रामयद्यो अद्य अस्कन्दगयन्निहदेशत्रिः विद्वो अख्यदा लोचते भानुनाभाग्यण्डः एव विक्रियातः विश्वाभुवनानिरक्तमविश्वानात्क्षितयः पृथग अर्घेतामालय हस्यामगङ्गामध्येत भवत्यस्याम् हरिगुण्डैव सुरीरम् अस्यामवानयन् भवस्यामध्युम्नवदराचरम् च ष्ठः कर्तापकः पुरतमः नेत्र पुनश्च प्राणायक्ष्म सुवादिके लव्यम हस्मै जय प्रतिहर्यकर्षे अर्जे जनामि तत् सुम् शिवप्रथमम् यज्ञे अग्निवेदाः श्रेयमक्षमनाय प्रमिन्धानमन्धे श्रीकृनः सुलेधा ञ्जौरीजयेभवनवर्जयनद्य प्राधिरञ्जनयच्छोदयश्चिक्षत्व प्रभोषो भोजामजयश्च प्रासहारयम् निष्पायस्तरभ्यासाय अनज्ञायस्य लोमनः वृक्षान्याय वशाण्याय सोमपृष्ठाय वेधयेतो ो नेक्षान्नम् षट् नवोर्ज नवोर्जन्धारायर्वेभः अर्जालिपर्जमिषञ्जनः अर्जेपव चले शतस्तमये ुलः <Iphans> उदुल्या यः ओ आदेव गम्भीरङ्गभ्युक्षणेन भगिनेत्रायसंस्कृतम् न्दृक् पन्दाय त्वा चेन्द्राय ते रोमधेव च रयत् पतिज्ञा यदुरा वन्द रक्षते नाथ स्मितमानो यो राजा तुत्यलिता तेहो दोधिले विनतु सर्वे वेदज्ञार्धमो जन्माथामो जन्मे दत्तं महावागु हिरण्यजम्मा महायकंCertं वादपागुदन सनाथ् बालिदाधा वन्दम विक्षर <speaking> in the Putting plains D FARM making the task of Commons Kadarcción withettes beads of help Because it is rare ेवोभ्याङ्त्य गोतो देवो देवानाम् पवित्रमेषाम् भागवध्यम् कृतौमजे धनिषत्तेन्द्रियदिव्यार्थोर्गन्धय क्षमन्ते Faatan Middle solamente madre Qua đem fundamentals Qua là ta hay चन्दर्य क्षमन्तान्तश्च विद्या वायक्षमधेणय सत्वाङ्गृताश्च उपनस्तम् उपयामभिय देवेन्द्रवायोः उपयो विराकलिङ्गबो वा मुशन्तिः उपयामेतोभ्याम् देशदेयोजतांहम् उपयामेतोधित्रावरुणाभ्याम् देशदेयोजरायुभ्याम् त्वा या ऐक्यम् उपजामहे वा नित्यहमिच्छदम् अस्य सोमस्य वेदये उपजामहे चतुर्भ्याम् केचन चतुर्भ्याः अयम् वैनस्त्वाममागम् सङ्गमे भोर्यक्षतिषन्द्रामचे उपजामेषाय केशव्ययोजे पूर्वसा विश्वशर्मजनम् सुवर्जितम् प्रदेलम् भजनम् दोर्भते सञ्चयम् समनया सुबधे उपजामुय द्वैषै प्रजापाठे ैकाच्येकाचैकाचेवाङ्क्रम् <coughs> एवम् तत्र यदलिना भजम् च याकम् वृद्रा पृथिवे शकन्ते एतादशाश्वे त्यायणाभ्युक्ता क्षयणो चन्द्रयज्ञम् चन्द्रयज्ञवलिमभिरवम् पातु सन्तम् पायेभ्यस्ताभ्यः याय प्रायस्वत्थायि वेयत्त इन्द्रभिरस्त्रे स्वादिष्टेतवेयिन्द्राय प्रात्सायिवे मोत्थानम् जित्वागतमुदाय जातमग्निवम् सञ्ज्ञाय मध्यञ्जनानामाधरञ्जात्रञ्जनयन्द्रेवा ग्नय त्वा वेश्वाधनाय ध्रुवा च ध्रुवक्षय ध्रुवानाम् ध्रुवनमोऽनामस्य भक्षत्तमज्नयेण स्वामेष्वाधराय असृश्चनाथ वक्षुश्च न पश्चन भक्षश्चेतश्च नश्च नपश्चन भक्षोपयामजे दोषुत्वात्यायत्वाग्निरङ्गे अभिरन्नभोदरेण्यम् हारन्धे वयामते हेतो भिन्द राज्यज्ञा भेदयो भिन्द विद्यां पावः गोनात् सखजेनो लोसिस्वरेवा आगताः तासादनोदना जगतपुतां वयामेया विच्छया सत्वादेवे अध्यगरे योनो विच्छे अध्यत्वादेवेज्ञा यत्र मरुत्पदयोन्द्रा यत्र मरुपे इन्द्रमरुत्तरता यस्तु यज्ञाः उपजाय त्वा भेन्द्रि वाविञ्जस्व यथयन्त प्रतिवस्तुता ेषन्द्रायत्वा मरुपेत मरुत्वम् इन्द्राय वो च्यामृष्टिमागुञ्जिः सोमेणस्य मातृभे उपजामते महेन्द्राय त्वेतदेवाय महेन्द्राय त्वा महागुण्ड्यदशा अस्मध्य्वादय उपयामदिहे महेन्द्राय द्वयमहेन्द्रायत्वा श्रियेन्द्रिधातु उपयो देवानन्दश्च तथा जनप्रयच्छजन्मने सुनीत्यभवनन्द्रियमातस्थापयन्तः शिवद्वाराय श्रेशलय रामकेशत्वेन मन्दत्वदेन पञ्चात्मदे वयम् तत्त्वयितात्रयामि राममध्य वामयविरे वाम लप्तमभ्य पुंसा रामस्य ऋक्षयत्रयेन भोरेयाधिर्यातः भारस्याम उभयामुहेतोऽभिषे मायत्पात्रे अनभ्यभिष्टगितः पायभिष्टगम् शिवेभिरद्यमाभि मागयम् हिरण्यदेवम् सजीषदा भजामभिहेतासि जैवाय त्वा सवित्रे हिरण्यपालिभोतये सिता नमप्रजये स चेष्टा कर्माजुप्रदक्षाणा दलदुक्षे न इन्द्रोदपत्रे वन्द्रहम् ग्रह्णातो हरिदतिहार्यः खादावज्रस्य हत्रामत्स्य सत्त्वम् गङ्गाम् गृह्णानि हरे प्रहर्याः ध्यादिन्द्रा यस्वा धा अज्ञानयोमदानसुभाविषञ्चनः काले पासत्वलक्षुणा त्वजामहिग्नय त्वा तेजस्पद एग्नय त्वा तेजस्पदुच्चवशधा सह गीत्वा शिप्रे अवयमयः सर्व इन्द्रमो सुखम् प्रजामहि दोषेन्द्रा यतोजस्पदययोन्द्रा यत्तौजस्पद विष्पदशमराज्यो विष्कृतशिशोर्या श्रीकमाभाभिम्पदयसौर्यायत्वाभ्याजस्पदे आव्यायश्वाभिरोधिः भवानश्चीवक्षेभोदलामदस्य मत्याः अस्मा परलक्षा भूको सैजन बने सामने ौरस्पदेन्द्रा साधयामिभ्य यत्कृतम् प्रासादयामिभ्य दर्विलम् प्रासाधयामि भास्पदेन्द्रदयामि विद्वलम् चेन् त्वा साधयामि वल्मनाभम् चेन्द्रयामि दीर्त्यमानान् त्वा चाधयामि लोचमानाम् त्वाधयामि यस्त्रान् त्वा Just the Cette ceux-Azumrêum, Just the Neues, Just the Neues, Just the Neues in ajetant. So Je qua es là, Ça va c'est le es phare... It's Maha Minya es phare... चित्तकम् सन्तानेन भवयज्ञा ऋद्रम्ब निजयग्रस्थोणहृदयेन हृदयेन रुद्रङ्गमभिजेन सर्वम् मनस्ताभ्याम् आदक्षवृत्तान्तनोतु अग्मुना स्वयामि लोकेन्द्रायत्वा षो रचिन योन्द्रायत्वा रचिने महता प्रतिशेनाञ्च स्फुटेरुपयज्ञञ्च मानुषाणाम् स्वयामि लोकेन्द्रायत्वा षो रचिन यथ यया निन्द्रायत्वा रचिने हता विपाप इन्द्रय सृष्टमार्ग हे अस्माकं दयावन्तं नृपं यन्नास्ति वयामि तोगिन्द्रायत्पाशो नृपाय दयायत्पाशाशे अलक्ष्या परिधीनं देवोस्तः पादिरा सुमास्ते सुदानां परयत्था अस्मिन् धर्मसत्थसामा वयामि यत्त्वा नगय स्वप्नश्चे स्वयं सदा इन्द्र भगवनां वरण्यत्त्वाम्यवरकान् सोरविस्वानि दैवीनात्तो नमनां सानत्त्वा भयाभयं कृणे विश्वलोनः वलयामहे गोइन्द्रत्त्वालोदिनयेंद्रयोजनारत्पालोदिने पुज्य इन्द्रजदा वेदं देवं जयमं महां केशवः श्रीयविस्वान जयबोलिनम् चित्रम् देवा नामुदगादने रञ्चक्षित्रस्य वर्णस्याग्नेयक्षमोर्य आत्मायगरक्षुतश्चाय अस्मान विश्वानि देववैराय विश्वानायध्यात्मस्य पराय भूयस्थाम् चैण्यम् विषये शिवंगल्पेन वो लोग मध्यम विस्तरे न्देत्रश्च वसान यत्रस्य वसान्दलक्षिणाम्भ्यन्द्रण्डलत्व ष्ट प्रजारमाना यत्रकम् अर्जपत्या यज्ञे अत्यन्नता यज्ञो भगात्सनमजन्मया यज्ञुधानाः रक्षिता सप्तम् सत्यमित्ये सत्येव देवान् तान्त्रे से ेवम् शिवलम् धर्मन्दिमागच्छता यज्ञ यज्ञङ्गश्च यज्ञवयम् गच्छत्वाञ्छत्वा यज्ञो यज्ञवदे रोक्तवागस्तुरे रस्वाः देवाकालुलिका गातुम् जित्वा गातुरिमनपद इमन्तो देवदेवे ज्ञस्वाहाय स्वाहा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 अवमानं सदा परं रक्षणं शौञ्ज्यं तमेदमे समिधै यज्ञज्ञे अदृश्यं क्वापि समउच्चरण्ये समुद्रे मेहेर्यमत्तः संकारं जंतोऽथेरता वोयज्ञस्य चतुरायक्यदते हरन्ते सोऽर्वागे नमो भागे विदेवा भवत्तनकं परणचेर सिद्धयन् गुणादेवयर्धर्मसंमेना नारायणं ेवं भक्तुप्रेरं सुभृतमगन्मेव वरुणस्य पाभ्य पाठये ृमो अन्नचारक्ष्महे अयस्वागुण्ठ ज्ञातमन्दम् मासगुंस जत्वा धुजागे नामन्यमानो मध्यम् मत्यो जोही जातजय अस्मासु भे हि प्रजाभिलग्ने अत्वमस्याम् हस्ति न पुत्रिणम् जीरवम् कङ्ख्यामकादयः हत्वा इन्द्राचरिच्यते उक्षे सोम इन्द्रम् समातमे सुतासः यदेकम् समाध्यतनन्द्रातवेदशे प्रशोभामिन्नते मातृके नमस्य विभासः ृतम् अयम् वयवक्रमाद्वयम् पृथक् प्रसिन्दन् अयं सत्र भवान् जय जगतवारौ अद्य नाम तथा यन्त त्यान्वायम् म् कोषाधत्तरेण बोधा तस्मात् पशवमुच्यं चेतं मनुरा धत्ततेन मनुराभ्या मानव प्रजा उच्यं शैतं धाता धत्ततेन भाता तस्मान् स्वं वरं प्रजा पशवान प्रजायं तेज एवं पुनराजयस्येवयो मनसो दाम देवन् सुमान् पाहि भागधेयम् महाज्ञः हि हितमानः प्रजाः परो नेदवान् व्योपदवान् च भवत् स्वास्य वरनाधिते भागधेयः निवेय न कुमत् सर्वार्थयर्थक शोधान् ेषा पुनर्वत्वराधुखे एतत्रै गुणवासेनक्षत्रय पुनर्वसोक्त्वाया देवेन देवताया मासाय ब्रह्मयामत्वाय लब्धेनाधत्य पञ्चकमायः पुरोद्ध्यासत्य पवकर <s> जयो मुद्वासयते पञ्चकपालः पुरोदास भवति पान्त यज्ञः पान्ता अथवो यज्ञमेव पशूनवरुन्धीरहामुद्वासयते न वा एतश्रब्दाह्मनारसाय पुरान्नभक्षं गो याज्यानुक्या भवन्ति पान्त यज्ञः पान्तः पुरुष देवामेव वैरन्ध्य याज्ञिं पुनराभत्ते सदाक्षदा भवन्ति सदायुः पुरुदक्षदेन्द्रियायुष्ठवेन्द्रिये लभ्यते ज्यायो भागदे यन्द्रिकामयमानो यदा ज्ञेयपुं सर्वं भवति दैवास्य वागे तस्य दिने वा सज्य देयो विभक्तया भवन्तिपदा हरिभक्त्यङ्कला गुरुभजितादृगैवच्छा हयता पावं वसुमिदानप्रकाशिकविषदि तादृगेवान विभक्तिमुक्त्वायतनादेवने विजमानो रे फले पुरोनासमेवारिगृह्णाय च परिजत्सम्भृत सम्भारित्या सम्भारतव्यमेत्य स्व फल संवृत्यादेव सम्भारात् कर्तव्यं यज्ञे पुनर्वा स्वदक्षिणा पुनरत्यो सम्भासः पुनरक्षान् पुनर् स्य समध्ये सस्तके अग्ने समिध्वा इत्यग्नियत्रयत्रैवात्यन्यशङ्कर एवञ्चद्वादयवेतस्य वरुण एवम् एकादश यत्सा सौभाग्येन प्रेणापि नामाचमानः भोम्ना जौर्वन्तरिक्षम् महित्वा उपक्षवेले मन्नाथमन्नाध्यायातते आयङ्गस्य न क्रमे तदनन्मातरम् पुनः विशतरम् च क्रयणम् पुनः श्रीपुंशब्दा मयिराजदिवासपे हस्तप्राणाकपालत्यन्तश्चेतश्च बहु धीपयामहे च मन्यबाभ्यक्षकृ आदेशाविश्वे तजैवान्मे मम्यम् यच्छन् यज्ञगन्धमन्तधातो प्रमुदा विश्वे देवाविषमाजयन्ता सप्तदे अज्ञे रविधः सप्तजित्वा सप्तविषयः सप्तधाः प्रियाणि ततः मेना पुनस्लाभुजेन पुन्यायस्त पुनर्जिकायुभा पुनप्ताहि विश्वतः धारिव्या इव शस्त्रायिङ्गया विश्वतया विश्वतस्तरे च कस्तय कस्तु च कश्चयनः दित्या आर्यम् च दानाभियन्त चेद चेतस्तु च दस्यै नमः नित्या भोजर्भोम्नाज्योर्हिनेत्यादेवेन माधत्ते सत्पादेशर्मेण मन्त्रमपक्षप्तोगेनाथोलारिया दिव्यर्गाध्यमादशायपुरान्न भजनक्षक्ते स्वभूतमेव जये मन्नाद्यन्नाता नमक्षैतं मन्त्रमपक्षप्त ैशामन्नाद्यौमानमध्यसर्पदायिनायुभवस्य मातसाः गृह्णाद्य प्रतिष्ठितमाधत्य यद्वा क्रुद्धेत्याः बन्धुरेवैषत्वनत्वयामधेत्याः समिन्ध्रगेवेन यत्र च मन्यपेत्याः ृहस्तदेव योपदि ब्रह्मदेवाना गृहस्त्रह्मणैव यज्ञमुं सन्दधा दिविश्यन्नमन्दधा चित्याभंसैविश्ववाविषमादिवन्ताहसन्तैव यज्ञं पुनरोध्योजागृह्णाचारित्याकमायन्तेष्यन्ते इमं लोकं पुनराध्ये काशीमाता गीता कुवन्ते सु लोकमार्यम् पुनराजेया शक्तिमासीदेवत्यामेव भोमि वयपयन्त अध्वरम् मन्त्रम् वचे माज्ञ आरे अश्ले चिन्वके हस्य अग्रे मोदिवृद्या अयम् अपानुहप्रसमो धायधाचारिष्ठ अध्वयश्चेद्यः क्षेत्रम् यदुरम् विषय विषये उदामिन्द्राग्नेयाहुलभ्या उदानयज्यैः यश्च दातये भुवे अयम् देयोजयो जातो अयो विधाः कञ्जानम् न ज्ञानोहाणो वक्षया रयम् अज्ञानयोगुं श्रिपवधानः आदेवासत्त्वदृच्छुना अग्नेपवस्त्वम् ौटरवभ्याजन्द्रीरते अवध्योदेगक्षत्रयः आयता अज्ञेयस्यायन्मे जयहिवच्चोद अज्ञे दिवश्च मे जैहितमोता अज्ञे तनुतम् मे प्राच्याज्ञेयन्मे प्रमुदा होनन्दम् महापणचित्रालस स्वप्त पारमश्रीयन्धानात्वा सप्तमिदेवयस्तवयस्कृतकृतयम् श्रिया सोमदाब्जम् यत् प्रजा मानयी सर्वा भवन्त अम्भत्ताम् भोवा भक्षी यमहस्तमहोवा भक्षी यतः भोवा भक्षीत्वार्चम्बक्षे यदयवशे रमस्मिन् लोकेन भक्ते यन्मे भूयास्तदगुद्धिराभिश्वलोके रामोर्चाभिराजो भक्त्यम्भः पुरुष्यादं मयि भोज यन्ताम् उपे दिवे दोषा वत्सर्धिया वयम् नमोभरन्तमः उतरमाता शिवफलोक्षः सन्तासोजिक्षलीदिवः सुम्नाय नूनमे महे षेभ्यः वधाः अक्षालक्षजीमत्समालयेन्द्राः ओर्जावः पश्याम्योर्जा मा पश्यत राजत्वमः पश्यामि राजत्वमा पश्यते राः जगद्यावयामाविषते रामनः पुष्यादम् मयि भोराय श्रियन्तात्र विदुरन्यम् भग् देवस्य भीमहि श्रीवयोनः प्रचोदयात् सोमायणम् च मे ब्रह्मणस्पते अक्षिमम् द्यौ हिरम् परायणस्तरेण पिरेन्द्रतस्य उपोन्नोन् देतानम् देवस्य मृत्यदे हरित्वाग्ने पुरम् वयम् विप्रभुम् सहस्य धीमहि श्रिवेष्टारम्भम् गुरावनः अग्ने गृहदे तुलभयन्मया गृहतिना भूयापलम् तुलहभय त्वम् गृहवदिना भूयात्सलम् हिमात्तामासु समासाधे पन्तदे ज्योतिष्पदेम् तामासु समासा च वृष्णे ज्योतिष्पदे अयज्ञोरा यजयो वामोपयन्तो अध्वरमित्याहस्तममेवास्मै लक्षिकेत्याहप्रजा वै पदभौ वेमं लोकम् प्रजामेव वशो इमं लोकमुस्य प्रमलर्जितमित्याहसु भर्गो वै लोकप्रत्यस्तु भजमेव लोकम् समात्यह भोद्धानमेवेन ेव लोकादेव नित्य लोके प्रदेशक्त धाःवत्सरं वत्सर एव प्रतिष्ठोर्जेर्यक्षेपमग्निलाभि इदं वत्सरस्य परक्षा जीवाने विरुपतिष्ठदेकरा चोपतिष्ठते योग एव शेषोपतिष्ठदेव पापीत्यमश्चरितादिकैवयुक्ता अग्ने चायङ्गेत्याः यथा च जवच्चौदा अग्ने जवच्च मे देहे च भवच्चौदाश्च शत नौका अग्ने च गनुवङ्गे गाहे चौका चै चन्म गनुवानं गन्माग्नेयन्ने य शिवा वैतदा हरिप्रावधरा सर्वे क्षित्राव्यश्चैवा वेदस्यै पुराश्च मेदावरुन्ध्रन्धानय प्रयश्चे कर्मका या समितश्च लघ्ने जयमानायप्रहरवित्रं सन्तो यमत्सारिच्चा हैतत्वमधीतमहं भोया समिवारे तदा हस्तमग्नेत्या Thank <laughs> you. कम्बस्यानि प्रजाहत्यायावन्दने रघ्राण्या प्रजवस्त्राणेवावरुन्धे भक्ताम्भो गो भक्षीये त्याहाम्भो चेदामहस्तमः भक्षीये त्याहमहो चेदासः गो भक्षीयत्यामनः चेदाहो ज्यं वा भक्षीये च्याहोजकेदानेव देव मित्याः वधावे रवणे भयो घटित्वा अन्यान्यस्कुं शिवाभिस्वलोके ऋषिवक्षमभिवशत्युपैलेन सत्यनं कुरुषे प्रमाश्यवधेयापतिष्ठदेष्ठदे ौर्गालवच्यादेव निध्वजै गायत्रेभिरुपतिष्ठजय ते जोगैकायत्री जैजैवान् भक्ते भोगदेवच्चैकालभक्त्यं बाणवीराजायञ्च विद्वां दिवदाभिर्गायभवत्योर्जामापक्ष्यते चामेव God, I'll stand up for the rest त्याहप्रेतो नित्याहीतमेवावृन्ध महेब्रह्मस्पदयित्याह ब्रह्मवच्छतमेवावृन्दे कदा जनस्थले रवित्याहनस्पले गं धात्रिं वधिजेरवं विद्वा महेत्रिमपदे वरित्वाग्ने पुरं वयमित्याहपरिं वरिदधा चाजाग्नेहयदा हृदयवेदच्छलं हिम त्याभन्त्राभि मन्त्राणि भिय देवाले ददाः पुत्रश्च नवग्रह्णाच्यलयेन माभिसमासाधयपन्त ज्योजस्वदेविदेब्रोजा यस्य पुत्रोचारस्य तेजस्तेवासब्रह्मवर्तते पुत्रोचार्यमाभिसमासाधयमुष्णे ज्योजस्वदेविदब्रोजा यस्य पुत्रो दातस्या तेजदेवाख्यम् ब्रह्मवच्छतम् प्रधाति ज्ञहोऽत्रञहो विजदेवनियतमानस्य तत्रैव तद्रेतश्चिञ्चरितजनेन सजनयम्भूयदे प्रजायम् जेयत्सायम् जो द्विवेतदेवात्सिञ्चलि प्रैवत्रादत्तनेन जनैरम् न त्वत्रायतम् प्रजाय देयावत्सो वे न चित्तस्य त्वष्टा रूपाले करोपि तावत्सो वे जायक देवमैरैर्यत्रायो भग्नेपदितदेवे तथ देव जायते स्वभूयान् भवय एवं वित्ताज्ञमुपतिष्ठदेवानामाधेद्रा प्रपुराणान्ते सुरा यद्देवानाम् जित्तं यज्ञमाधेण सह रात्रिव्राविशं ते देवाधीनामन्यन्त ी रात्रियाग्निगस्तवासरपशोन् पुनर्दाीकृते प्रसोदयित्वा कामाकं न गुर्वधय एवं विद्वान् हज्ञमपदे सुभान्धवत्याो वा अस्मान् लोकाशुभम् यत्सामं लाकं यत्सा पुनरिमं लाकमभ्यर्थ्यायत्र इमं लाकमागच्छोदृन् मृत्युसंज्ञाकस्सामन्यवाज्ञवाधितवादस्तु वर्गं द्वाकं गमयक्षये विपोगिमस्तौ त्रयमग्रस्तुतस्तु वर्गन् लोकमयमयज्ञ एवं विद्वानग्निमतिष्ठचेतु वर्गमेव लोकमे विसर्वमाजयत्यभिवाजय मुपलिष्ठदेव प्रादक्षं प्रजानि सृज्यन्ते रहस्य जागच्छ वापि जागच्छाधारे ज्यो दर्वाग्निमोला ध्रियन्ध्योजैव माबथेया इत्याब्स् Onionisation वैं बहल्ष क्याद्या चस्भानु पाठ् Becca स्मूदेवान YouTubers इत्याब्सो झेन वर्भानु पद्धान्माबथेया जन्मानवान जन्मी स्मानुभजपुरजे वृत्तान्द्रोऽन्दयं गद्यच्छन्द्राभिमेव्यो हर वग्निं प्रत्यन्दवष्ठत्ययस्पय अमना अमना ेव आयुषे त्वम् जीवते वयङ्गनश्चये समाजये प्रदेधाय न सम्भोराज्यमित्सह्ये सर्वम् धर्मः देवास्थानय प्रतिभाजनाः सम्मायुषा न तु यत्रयस्पध्ये न <olisrim |translate|> जिन्में योमुदानः परिषयश्च सर्वे येत्यश्चेत्रिवम् सप्तम् येत्यञ्चादम् अप्येषु ज्योति महेस्वाज्योतिमान उ कृष्णोन्न फलिद्वान हरेन्द्रिन्द्योऽयम् पादस्वस्य विस्तरानः त्वमज्ञे शोषिता शोषिता नादो नायमानः त्वम् देवागम् अवितस्तैलम् द्रोवेश्वानो अस्माकमग्ने मधवत्सुधानाम् क्षत्रयम् सुदीर्यम् अयम् देवम् रहस्य लम्बेष्वाजाग्ने मोदिः Hey try to help kya bhara raha hai kambho bana isri to jaao is tabe jaane me jaa tere is par log kare mai jo क्षोन्योधि धाभुवः मायन्तो हवामहे आतो नौन्तो निषे यताभिन्तानि मरुषोभियन्तरम् अविजन्मोक्षत्र यच्छसो हरिजक्ताम् सुशर्मा नमति देवम् सुक्रणेकम् पुत्राम् तु जयन्त्यम् सुशर्मा नमति दिवम् सुकरणेकम् यत्रा समस्रवन्थये सदा यत्रागम् सदस्याम् पालयत्वम् ओसाध्या प्रजामायोजप्रजोपालयमानयिता त्याभिश्चाध्यक्षमसि हरिरशिवै श्वानवम् वैरेकैलमुद्बोधगम्बोजानादे सहस्ता यतश्च ृन्वाद्यत्याशिरमधित्यस्य सत्यमधित्याय अभिवर्त्यभिेन त्वाभिभावयामिवत्यदय भक्षीयवतानां यन्त्राय भद्राय ग्रन्थाय गञ्जानां त्वन्द्राय भद्राय ग्रन्थाय वञ्चानां त्वायन्त्राय भद्राय ग्रन्थाय गं जानाम् त्वापञ्चजनानां यन्द्राय भद्र य गृह्णामि गवाञ्जविरक्ष मन्त्राय भत्राय गृह्णामि ब्रह्मणस्वागत यन्त्राय भत्राय गृह्णामि क्षत्रस्य पोषत यन्त्राय भत्राय गृह्णामि विजेयत्वा यन्त्राय भत्राय गृह्णामि गुरेभ्याय त्वा गृह्णामि सुप्रधाय त्वा गृह्णामि राय कोकाय त्वा गृह्णामि ब्रह्मभताय त्वा गृह्णामि देवता गृह्णामि गृह्णामि ्रमोहगन्त जालय भूया बन्धेरक्षेत्रापदेव जाते भूयासमुद्रश्च विभोगश्च विभो रहमन्त भूयासमनिभो चेदरा ब्रह्मनादे प्रज शुराज मैनमेस्यासने धमन्त्रयित्वार्जन्नाधिकर्मयाय स्वयात्रागत्य मनधामा भोजैनाभिसमागत्यै त्रेषाये श्रियेषन्तोनां प्रेणामितमादोनाम् प्रेणामितमाेणालु ीमन्तरदमतोनाम् प्रेणामि कामा प्रेता प्रेणाम हेमन्तीणामि गौमाौ प्रेतामज्ञे भौमयोञ्जैव यज्ञया चक्षुष्मान् भोजालमज्ञया नाम भोजाभ्य लक्ष भोजातमन्द्र जैराग्नेशामयान् जय यज्ञया वृत्तः भोजासमिन्द्राज्ञाहं देव यज्ञाभ्यन्व भोजासमिन्द्रस्याहं देव यज्ञयेन्द्रयादे भोयासं महेन्द्रस्याहं देव यज्ञया देवाहं महिमानन्दमे प्रकृताहं देव यज्ञया यत्माणयज्ञाङ्गमेयम् ये त्यं च श्रीमताश्च यज्ञो दिवं गच्छन्धान्द्रियं मे लोगे हं जै वयज्ञयावन् भूयासन्नहं जै वयज्ञान् भूया समग्ने चकोभं जयज्ञकालिस्मानयज्ञाने रामस्य रामस्य भिमनात्य रामग्नेभया रामस्य रविन्द्राग्निमश्च रविन्द्र ग्राहम् च निग्राहम् च ब्रह्मदेवाहमेव सन्न तथा सवस्त्राणिन्द्राज्येनैव शोचेनान्यस्य नाम् न्द्रवन्दोमनामहे क्षेमहे प्रजामितम् गमयत्येव परितर्चनाय रत्वाद्रविशैस्रम् गणोतान् देवताभो ैव यज्ञया रामजैवया यज्ञम् यज्ञम् प्रतिदेवर्यायुधौलित्या तत्र उदाज्ञे अत्यन् धान्नाम लोगत् तथ्यग्रत्वा दामि ने भोजा कर्मपति सर्वं मे भोजात्नूर्णं मे भोजामे प्राच्यान्वादिमार्जयन्धान् दक्षिणायाम् कृतमार्जयन्तान् प्रदेज्यासवमार्जयन्तामुदे जयन्तायां वस्तदो नित्यमजर्मयन्तां वृष्टाक्रमादिहायत्रेण छन्दसा मिक्रमेणभक्तत्रयं नृपा विष्टाक्रमाधिगत्य छन्दसान्तरिक्षमविक्रमेण निर्भक्तत्रयं नृत्वा वृक्षाक्रमास्य यतो हन्ता न शन्तसाधिक्रमेणेक्षा क्रमोदिदत्तो यतो हन्तारुष्टसाधिषा नैक्रमेणकष्टयम् जग्मः अगन्मतु भक्तोरवन्द्रे माशित्रियत्रेतभक्तत्वे प्रैवारच्येनामायुद्धा अस्यायम् देशे वचा अधिवचेहेतमहमोभ्यो आत्मादन्त्यात्मादम् नाध्यान्यर्भयामित्रयम् जष्मः या प्रम् अग्ने संवसु समग्जनः अग्नेपवत्रयवच्च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 जय गृहजय सुग्रहमभिन्मया गृहजिना भूयात्मकम् सुगृहया त्वम् ग्रहजिना भूयाश्चतम् समासा जयसन्तजय चेन् तामासि समासा जयष्णे चेन्द्रत्वायक्षायम् च प्रज्ञाधिप्रज्ञे सदा अस्माकम् अधिपदे मार्गम् अस्मि यज्ञापदविरत्रिला यथा वेशमत सोमा एवं प्राणेते शमयज्ञाविद्रिषो गच्छन् निगच्छदानबूना पूर्वपरिग्रन्थाना गन्धं भारत केवायेदनं देवदा परिगन्धविजाश्वो भूते चटक भयेन नवेन ज्ञानं बुद्धम्य ब्राह्मणो पखध वजमपेषं प्रोया रज्ञे मुदपर बलन्द्रस्थामे यज्ञरुवे देवदा ेवैरमाधातनमुपत्ये यत्पूर्वश्चाग्रतपत्येत्यापत्येन जिमदेवाय धानक्षणाय देवतापदं श्री एवं निवाय धाम्या ्या अरण्याश्च्याम भवत ग्राम्यामरञ्जयस्त्रा स्यावशो नभिमन्ये गापो ज्ञाशिरन्यवाभिन्न क्षोधमादिनाश्चो नभिमन्यः क्षुत्फलश्च प्रातभवस विमद्रा नैव साक्षाक्षु सम्भारं हे